सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः प्रयच्छति वधेतुभ्यं तेन जीवसि दुर्मते नन्वद्यत्वाम् सहामात्यम् सकर्णानुजसौ गत्वा क्रोधसमाविष्टः प्रेषयिष्येयमक्षयम् किम् नु शक्यम् मया कर्तुम् यत्तेन क्रुध्यते नृपः धर्मात्मा पाण्डवश्रेष्ठः पापाचारयुधिष्ठिरः एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः करं करेण निष्पिष्य निश्वसन् दीनमानसः पुनर्दीनमना भूत्वा शान्तर्चिरिव महीतले वैक्षत सुप्तानवैक्षतवृकोदरः विश्वस्तानीव संविष्टान् नाति दूरेण नगरं ना वनादस्माद्धिलक्षये जागर् े स्वपन्ती मे हन्तजागर्म्यहं स्वयं पास्यन्ती मे जलं पश्चात्प्रतिबुद्धजितक्लमाः इति भीमो व्यवस्यैव जजागारस्वयं तदा इति श्रीमन्महाभारते आदि आदिपर्व जृहपर्व भीमजलाह पंचाशिकम्याय